अथ श्रीमेधादक्षिणामूर्ति अष्टोत्तरनामावळिः ॐ श्रीगुतवे नमः ॐ विद्यारूपिणे नमः ॐ महायोगिने नमः ॐ शुद्धज्ञानिने नमः ॐ पिनाकधृते नमः ॐ रत्नालङ्कृतसर्वाङ्गिने नमः ॐ रत्नमालिने नमः ॐ जडाधारिणे नमः ॐ गङ्गाधराय नमः ॐलवासिने नमः ॐ सर्वज्ञानिने नमः ॐ महाज्ञानिने नमः ॐ समाधिकृते नमः ॐ अप्रमेयाय नमः ॐ योगनिधये नमः ॐ तारकाय नमः ॐ ब्रह्मरूपिणे नमः ॐ भक्तवत्सराय नमः ॐ जगद्व्यापिने नमः ॐ विष्णुमूर्तये नमः ॐ पुरान्धकाय नमः ॐषभवाहनाय नमः ॐ शर्मवासाय नमः ॐ पीताम्बरधराय नमः ॐ मोक्षनिधये नमः ॐ दैन्याधीशाय नमः ॐ जगत्पतये नमः ॐ विद्याधारिणे नमः ॐ शुक्लतनुमे नमः ॐ विद्यादायिने नमः ॐ गणाधिवाय नमः ॐ पदापस्मारसंहत्रे नमः ॐ शशिमौळये नमः ॐ महास्वराय नमः ॐ सामवेदप्रियाय नमः ॐ अव्ययाय नमः ॐ साधवे नमः ॐ समस्तदेवतालङ्कृताय नमः ॐ हस्तवन्निधराय नमः ॐ श्रीमदे नमः ॐ मृगधारिणे नमः ओम् शङ्कराय नमः ॐ यज्ञनाथाय नमः ॐ यमान्तकाय नमः ॐ भक्तानुग्रहकारकाय नमः ॐ भक्तसेविताय नमः ॐ वृषभद्वजाय नमः ॐ भस्मोद्धूलितविग्रहाय नमः ॐराय नमः ॐ त्रिमोर्तये नमः ॐ परब्रह्मणे नमः ॐ नागराजालङ्कृताय नमः ॐ शांतस्वरूपिने नमः ॐ महारूपिने नमः ॐ देवाय नमः ॐ मिसेव्याय नमः ॐ सुरोत्तमाय नमः ॐ व्याख्यानदेवाय नमः ॐ भगवते नमः ॐ रविचन्द्राग्निलोचनाय नमः ॐ जगच्छेष्ठाय नमः ेतवे नमः ॐ जगद्वासिने नमः ॐ त्रिलोचनाय नमः ॐ जगद्गुरवे नमः ॐ महादेवाय नमः ॐ महानन्दपरायणाय नमः ॐ जगाधारिणे नमः ॐ महावीराय नमः ॐ महामोहिने नमः ॐ ज्ञानदीपैरलङ्कृताय नमः ॐ व्योमगङ्गाजलस्नानाय नमः सिद्धसङ्गसमर्चिताय नमः ॐ तत्त्वमूर्तये नमः ारस्वतप्रदाय नमः ॐ योगमूर्तये नमः ॐ भक्तानामिष्टफलप्रदाय नमः ॐ परमूर्तये नमः ॐ शिस्वरूपिणे तेजोमूर्तये नमः ॐमयाय नमः ॐ वेदवेदान्ततत्त्वार्थाय नमः ॐ चतुषष्टिकलानिधये नमः ॐ भवरोगभयध्वंसिने नमः भयप्रदाय नमः ॐ नीलग्रीवाय नमः ॐ ललाटाक्षाय नमः ॐ गजचर्मिणे नमः ॐ ज्ञानदाय नमः ओम् अरोहिणे नमः ॐ कामदहनाय नमः ॐ तपस्विने नमः ॐ विष्णुवल्लभाय नमः ॐ ब्रह्मचारिणे नमः ॐ सन्न्यासिने नमः स्थाश्रमकारणाय ओम ओम नमः ओम् दान्दाश्रमवदाम् श्रेष्ठाय नमः ओम् सत्यरूपाय नमः ओम् दयानिधये नमः ॐ योगभट्टाभिरामाय नमः ॐ वीणाधारिणे नमः ॐ विचेतनाय नमः ॐ मतिप्रज्ञासुखाधारमुद्रापुस्तकधारणाय नमः ॐ राजयक्ष्मादिरोहाणाविनिहन्त्रे नमः ॐ सुरेश्वराय नमः ॐ श्रीमेधादक्षिणामूर्तये नमः